मुद्गलपुराणं खण्डं फोर् गजाननचरितम् अध्यायम् एय्ट् व्रतवर्णनम् श्रीगणेशाय नमः वसिष्ठ उवाच आश्विने वरदात्रिया चतुर्थी शुक्लपक्षगा तां शृणुष्व महाभागसव्रतां सर्वदायिनीं इतिहासम् प्रवक्ष्यामि पुरातनभवम् नृपा व्रतसंयुक्तमाहात्म्यम् भवेत् सर्वार्थसाधकम् रैवतान्तरगो राजा कीर्तिमांश्च बभूवः मदो नाम्ना धर्मधरपूर्णशस्त्रास्त्रपारगः देवविप्रातिथिप्रेप्सुः पञ्चयज्ञपरायणः नीतिज्ञपुत्रवल्लोकान् पालयन् स्वहिते रतः भार्या तस्या भवत्सापि पादिव्रत्यगुणान्वितः सर्वलक्षणसंयुक्ता विप्रदेवातिथिप्रिया गजानां च हयानां वै पदादीनां महीपदे रथानां नैव संख्यास्ति, धानुष्काणां विशेषतः सप्तद्वीपवदीं पृथ्वीं पालयन् समराधिपः देवादीनां च सङ्ग्रामे परवीरः तस्य वन्ध्यत्वदोषेण नृपपुत्रो बभूवनो नानायत्नपरो राजापुत्रार्थे प्रबभूवः तीर्थयात्रादिकं सर्वं चकार विधिवन् नृपः अनुष्ठानव्रतादीनि देवानां पूजनं तथा एवं नानाविधै पुन्याय बभूव ना स्तुतस्ततः राज्यं त्यक्त्वा वने राजा सस्त्रीकः जगामः तत्र भ्रमणयुक्तः स ददर्शः महावनं सिंहव्यालादिसंयुक्तं भयदं सर्वजन्मिनां दुःखयुक्तस राजर्षिप्रवेशं स चकारः वने तत्र मुनिश्रेष्ठं सौभरिं सन्ददर्श च तं प्रणम्यमहाभागशस्त्रीकः पुरदो मुनेहे कृताञ्जलिपुरो भूत्वा तस्थौ स नृपसन्मुखः तदस्सौभरिणासोऽपि सत्कृतो वचनेन च निशसादासने तत्र मुनिना दर्शिते नृपः तमुवाच महाभागम् राजानम् मुनि सप्तमः कोऽसि त्वं वन उग्रे मेत्र किमर्थम् समागतः इति पृष्टो महेपालस्तमुवाच सुहर्षिदः कीर्तिमान् सर्वधर्मज्ञकृत्वा करपुडंवचः कीर्तिमानुवाच द्राविडे वसदिर्मेष्टि नगरे सुरसत्तमे राज्यं करोमि तत्राहं सार्वभौमो महामुने अपुत्रो दैवयोगेन जादोऽहं मुनिसत्तम पुत्रार्थे व्रततीर्थादीन्नाधर्मान् करोमि वै राज्यं तक्त्वा वने योगिन्नागधपुत्रकाम्यया तत्र ते दर्शनं प्राप्तं सर्वसिद्धिप्रदं प्रभो तव दर्शनमात्रेण सफलो मे भवो भवेद मातृपित्रादिकं सर्वं धन्यं जातं न संशयः अधुना ब्रूहि मेनाद पुत्रप्राप्त्यर्थमादराद उपायं तं चरिष्यामि त्वदाज्ञावशगो इह जन्मनि भो विप्र न कृतं पापमुल्बणं मया राज्यं कृतं भूमेर्भययुक्तेन चेतसा तथापि वन्ध्यजो दोषो मया प्राप्तो महामुने पूर्वजन्मकृतं पापं ज्ञायते नैव चेतसा कथयस्व महोग्रम्मे पापं सर्वविधां वर योगीन्द्रोऽसि महातेजात् साक्षात् ब्रह्मतनोर्धरः वसिष्ठ उवाच एवं विनययुक्तेन राज्ञा पृष्टो महामुनिः सौभदिस्तं जगादेदं वचनं गणपप्रियः सौभरिरुवाच कृतम् त्वया महत्पापम् महाराजविशेषतः पूर्वजन्म कृतं नैव पापम् ते विद्यदेधम तव राज्ये महामूर्खचतुर्थीव्रतमुत्तमम् लयं प्राप्तम् विशेषेण प्रदादौ फलदं मदम् दम, चतुर्थीव्रतमाद्यम् यन्मानवेन न न कृतं चेद्व्रतानीह निष्फलानि भवन्ति च विशेषतस्त्वया कर्म नाना पुण्यादिकं कृतं चतुर्धिहीनभावेन निष्फलं तद् बभूवः चतुर्विधपदार्थानां धात्री वरदा मदा चतुर्विधं तु सङ्कष्टं हरन्ति मदा भुनकृतिराजापापं राष्ट्रकृतं शास्त्रसम्मदं जनानां व्रतहीनानां पापभागी भवान्मदः अतः पापमयि मूर्तिस्त्वमेवात्र न संशयः तेन वन्ध्यत्वमापन्नो नराधमनबुद्ध्यसे सौभरेर्वचनं श्रुत्वा कीर्तिमांस्तं जगादः विनयेन समायुक्तो भयभीतश्च पार्थिवः कीर्तिमानुवाच अज्ञानेन कृतं कर्म मया स्वामिन्सुपापिना कीदृशं तत् व्रदं विप्र मह्यं वद विधानदः पुत्रप्राप्त्यर्थमेवं वदोपायं महामदे येन पापविहीनोऽहं भवामि पुत्रवान सुखी सौभरिरुवाच चतुर्थी व्रतमाद्यं त्वं कुरुष्व नृपनित्यदा जनैः सर्वैस्तदा सर्व पापहीनो भविष्यसि अज्ञानेन करोषि स्म पापं ज्ञात्वानुतापवान् व्रतारणमात्रेण निष्पापः पुण्यभाग्भवेः इत्युक्त्वा व्रतमाहात्म्यं कथयामास विस्तराद तदत्सोऽपि महाबुद्धिप्रच्छ विनयान्विदः कीर्तिमानुवाच कीदृशोऽयं गणाधीशो व्रतं यस्य च दुःपदम् ब्रह्म भूय करं प्रोक्तं भजिष्यामि विशेषतः ततस्थं मुनिशार्धूलसौभरि पुनरब्रवीत माहात्म्यं गणनाथस्य शान्तियोगपदप्रदम् सौभरिरुवाच पुराहं तपसा युक्तो नानाच्छन्दपरायणः अभवं तत्र देवा वै भयभीदा बभूविरे अहोत्तपः प्रभावेण जित्वा सर्वम् द्विजोत्तमः किमिच्छति पदम् श्रेष्ठम् ज्ञायते स्माभिरेवन प्रशयामास सस्त्रीकम् तधः सुराधिपः तपो भङ्कार्थमेवं मे कामस्तत्र समागदः उर्वशीसहिताभिश्चाप्सरोभिर्मधुना तथा आस्तबाणस्वयङ्कामः पीडयामास मां शरैः अहम् तपःप्रभावेण जित्वा कामम् सह स्त्रिया मोहहीनस्तपस्तत्रा तपम् सुदृढनिश्चयः तदोमे ततो मे तपसोऽग्रेण दाहयुक्तो बभूवः कामः जगादसः सर्वैस्तम् अघवन्तम् जगादसः तदोऽहं योगमार्गेणान्तर्निष्ठश्चा भवन्नृप जडोन्मत्तादिमार्गेषु संस्थितो योगकारणाद तदशुको महायोगी गणपत्यः समागतः ममाश्रमे समां दृष्ट्वा जगादेच्छसि किं मुने ततस्थं प्रणदो भूत्वा कृताञ्चलिः पुरप्रभोः स्थित्वा वदं सुवाक्यं तच्छृणुराजन् सुसिद्धिदं मम श्रेष्ठेन भाग्येन त्वं प्राप्तोऽसि महायशाः शान्तिं वदमः योगिन्यया शान्दो भवाम्यहम् श्रीशुक उवाच चित्तम् पञ्चविधम् त्यक्त्वा चित्तम् कृत्वा च तन्मयम् निरोधेनैव भूमीनाम् शान्तिम् प्राप्स्यसि निश्चितम् चिन्तामणिम् भजस्वत्वम् मन्त्रेणैकाक्षरेण च तेन चिन्तामणौ विप्र सञ्जित्तः सु भविष्यसि त्यक्त्वा जडाधिकम् शमदमपरायणः गणनाथं महाभाग भज यत्नेन नित्यदा एवमुक्त्वा सुखो योगीययौ स्वेच्छापरायणः गणेशनामसङ्कीर्त्य जपंश्चैव विशेषदः अहं गणपतिं भक्त्या भजं सम्भक्त्रिसंयुधः एकाक्षरविधानेनास्ताप्य मूर्तिं पुरो नृप ततः स्वल्पेन कालेन शान्तिं प्राप्तोऽहमादराद तथापि पूजने सकृतो भजं तं गणनायकं दशवर्षे गते काले विघ्नेशो मां समागतः मया संपूजिदो राजन स्तुतश्च विविधैष्टवैः गाणपत्यपदं दत्त्वा गतस्वानन्दके पुरे तदादिगाणपत्योऽहं भजामि ब्रह्मनायकं यवमुक्त्वा स राजानं ददौ मन्त्रं विधानदः षडक्षरं सराजर्श्रेस्थं प्रणम्य ययौ पुरं स आश्विन्यां द्वितीयायां शुक्लायां तु गृहे गतः तस्मिन् मासे चतुर्थ्यां च शुक्लायां व्रतमारभत जनैः सर्वैः समयुक्त उपोषणपरायणः मध्याह्ने गणपं तत्र प्रपूज्य विधिवन्नृपः रात्रौ जागरणं चक्रे बाल्य बालवृद्धसमन्वितः न रैस्त्रीभिस्तद्व्रतं च कृधम् सर्वैर्यथा तथम् शुक्लाम् कृष्णाम् च येन कुर्वन्ति न राधमाः तडनीया प्रयत्नेन पृथिव्याम् यत्र तत्र सः कोशेण कोशयामास तत सर्वे तथाभवन् व्रतम् ततो वै बभूव प्रशस्तम् भूमिमण्डले एवं भूमण्डले राज्यं कृत्वा पुत्रे निवेद्य सः वने गत्वा गणेशानं शस्त्री गो आभजन् अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो बभूवः तस्य राज्ये स्थिता लोका सर्वे स्वनन्दका बभुः एवमन्यं दशरथशृणुष्व व्रतोद्भवम् इतिहासं प्रवक्ष्यामि चाश्विन्यां परमाद्भुतं भीमो नाम महाव्याद्धः पापकर्मपरायणः मार्गे जनान् निहत्वा गृह्य धनं स तुदोषः ये कदा वनमध्ये ब्राह्मणं हन्धुमुद्यतः पलायद द्विजस्तत्र वने भयसमाकुलः एतस्मिन्नन्तरे तत्राश्वगः शस्त्रधरः पुमान् धावंश्च ब्राह्मणं दृष्ट्वा भीमं धृत्वा गधपुरे ततो स्वाश्रमं प्रजगामः पुरुषो भीमव्याधं तं राज्ञे दुष्टं न्यवेदयद तत्र सोऽपि क्षुधा विष्टो व्याधः संस्थापितो भवद राज्ञाश्विन्यां चतुर्ध्यां वैशुक्लायां दैवयो गतः पञ्चम्यां तं जखानैव व्याधं गजाननः चदुर्ध्याम् क्षुद्धि तत्वात् सब्रह्मभूतं चकारः एवं नानाजनाराजन् चतुर्धी व्रतयो मया वक्तुम् न शक्यते चतुर्धीजमिदम् चित्रम् चरितम् कथितम् मया शुक्लाश्विन्याम् समुद्भूदम् श्रवणात्सर्वसिद्धिदम् शृणुयाद्यपडेद्वा विभुक्तिम् मुक्तिम् लभेन्नरः पुत्रपौत्रादिसंयुक्तसुहृद्भिर्नृपसत्तम ओं तत्सदिधि श्रीमदाध्ये पुराणोपनिषद्दी श्रीमद्गले महापुराणे चतुर्थे खंडे गजानन चरिदे शुक्लाश्विनी चुथी व्रतवर्णनम